नारायणीयं दशकं 35 मीटर मीटर् श्रद्धरा नीतसुग्रीवमैत्रीन् तदनुहनुमदा दुन्दुभे कायमुच्चैः क्षिप्ताङ्गुष्टेन भूयो लुलविधयुगपत्पत्रिणा सप्तसालान् हत्वा सुग्रीवखादोऽतमधुलबलम् लिनं व्याजवृत्या विरह वर्षवेलामनैषीर्विरहतरलितस्त्वं मदङ्काश्रमान्दे सुग्रीवेणानुजोग्र्या सभयमभियदा व्यूहितां वाहिनीं तामृक्षाणां वीक्ष्य दिक्षुद्रुतमध दयिता मार्गणा यावनम्राम् सन्देशं चाङ्गुलीयं भवनसुधकरे प्रादिशो मोदशाली मार्गे मार्गे ममार्गे कपिभिरपि तदा त्वत्प्रिया स प्रयासैः त्वद्वार्ता कर्णनोद्यत् गरु दुरु जवसम्पादि सम्पाधि वाक्यप्रोत्तेर्णार्णोधिरन्तर्नगरिजनकजां वीक्ष्य दत्त्वाङ्गुलीयं प्रक्षुद्योद्यानमक्षक्षपणचणरणसोढबन्धोदशास्यम् दृष्ट्वा प्लुष्ट्वा च लङ्काम् चडिति स हनुमान्मौलिरत्नम् ददौ ते त्वम् सुग्रीवाङ्गदादिप्रबल कपिचमूचक्रविक्रान्त भूमि चक्रोऽभिक्रम्य पारे जलधिनिचरेन्द्रानुजा श्रीयमाणः तत्प्रोक्ताम् शत्रुवार्ताम् रहसि निशमयन् निशमयन्प्रार्थना पार्थ्य रोषप्रास्ताग्नेयास्त्रतेर्जस्त्रसदु दधिगिरा गिरा लब्धवान् मध्यमार्गम् कीशैराश्यान्तरोपाहृतगिरिनिकरैः सेतु माधाप्ययादो। यादून्यामर्द्यदंष्ट्रान्नखशिरसिशिलासालशस्त्रैस्वसैन्यैः व्याकुर्वन् सानुजस्त्वं समरभुवि परं विक्रमं शक्र जेत्रा वेकान्नागास्त्रबद्धः पदिकपदि गरुन्मारुतैर्मोचितो भूः सौमित्रिस्त्वत्र शक्ति हृदि गलदः सुर्वादजानीद शैलख्राणात्प्राणानुपेदोऽकृनुद कुसृदिष्वाखिनं मेखनादं मायाक्षोभेषु वैभीषण वचनहृदस्तम्भनः कुम्भकर्णं सम्प्राप्तं कम्बितोर्वीतलमखिलजमो भक्षीणं व्यक्षिणोस् गृह्णन् जम्भारि सम्प्रेषितरथकवचौ रावणेनाभियुध्यन् ब्रह्मास्त्रेणास्य भिन्दन् गलददिमबलामग्निशुद्धां प्रगृह्णन् देवश्रेणीवरोज्जीवितसमरमृतैरक्षतैरुक्षसङ्घैः लङ्का भर्त्राजसागं निजनगरमगाः स प्रियः पुष्पकेण प्रीतो दिव्याभिषेकैरयुधसमधिकान्वल्सरान् पर्यरंसीर्मैथिल्यां पापवाचा शिवशिव किलदां गर्भिणीमभ्यहासीः शत्रुघ्नेदयि लवणनिशिचरम प्राधय शूद्रभाष्यम तमीकिगेहेतवसतिदसीदा सुतौते वालोद्घाद मधुरकते राजया ये सीतां त्वया तु कामेक्षिदिमविशदसौ त्वं च कालार्थितो भूः हे दोः सौमित्रिकादिस्वयमथ सरयूमग्ननिःशेषभृत्याैः साकं नागं प्रयातो निजपदमगमो देववैकुण्ठमाद्यं स्वयं मर्त्यावतारस् तव मर्त्यशिक्षार्थमेवं विश्लेषार्तिर्निरागस्त्यजनमपि भवेत् कामधर्मादिसक्रिया नो चेत् स्वात्मानुभूते विक्रिया चक्रपाणे सत्त्वं सत्त्वैकमूर्ते पवना पुरपदे पवनपुरपदे व्याधुनुव्याधितापान् सर्वत्र गोविन्दनाम सङ्कीर्तनं गोविन्द गोविन्द